अथ त्रिसप्ततितमः सर्गः दर्शयित्वा तु रामाय सीतायाः परिमार्गणे वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् एष रामशिवः यत्रैते पुष्पिताद्रुमाः प्रतीचीम् दिशमाश्रित्य प्रकाशन्ते मनोरमाः जम्बू प्रियालपनसा न्यग्रोध प्रक्षतिन्दुकाः अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः धन्वना नागवृक्षाश्च तिलकारक्तमालकाः नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः तानारुह्याथ भूमौ पातयित्वा च तान् बलात् फलान्यमतकम्यथ तदतिम्य काकुत्स्थवनम् पुष्त पादप्ज नंदन प्रतिम्वाकुर वस्तूत्तराव सर्व फलायत्र पादप मधुरस्रवाे चतपस्त वने चैत्रे यहाटपधारिण शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः तानारुह्याथ वा भूमौ पातयित्वा अथ वा सुखम् फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति चङ्क्रमन्तौ वराञ्छैलाैलाच्छैलम् वनाद्वनम् ततः पुष्करिणीम् वीरोपम्पाम् नाम प्रामसंजातवालूकाम् सञ्जातवालूकाम् कमलोत्पलशोभिता तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघवा वल्गुस्वरा निकूजन्ति पम्पासलगोचराः नो द्विजन्ते नरान् दृष्ट्वा वधस्या कोविदाशुभाः घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः रोहितान् वक्रतुण्डांश्च नलमीनांश्च राघवान् पम्पायामिषुभिर्मत्स्यांस्तत्र रामवरान् भतान् निस्तत्पक्षानयस्तप्ता न कृशानैककण्टकान् तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति भृषन्तान् खादतो मत्स्यान् पम्पायाः पुष्पसञ्चये पद्मगन्धि शिवम् वारि सुखशीतमनामयम् उद्धृत्य स तदा क्लिष्टम् रूप्य स्फटिकसन्निधम् अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति स्थूलान् गिरिगुहाशय्यान् वानरान् वनचारिणः सा यान्ने विचरन् लक्ष्मणः अपाम् लोभादुपावृत्तान् वृषभानिव नर्दतः स्थूलान् प्रीतांश्च पम्पायाम् द्रक्षसि सायाह्ने विचरन् राम विटपी माल्यधारिणः शिवोदकम् च पम्पायाम् दृष्ट्वा शोकम् विहास्यसि सुमनोऽश्चितास्तत्र तिलका नक्तमालकाः उत्पलानि च फुल्लानि पङ्कजानि च राघवा न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः न च वै म्लानताम् मतङ्गशिष्यास्तत्रासं ऋषयः सुसमाहिताः तेषाम् भाराभितप्तानाम् वन्यमाहरताम् गुरोः ये प्रपेतुर्महीम् तूर्णम् शरीरात् स्वेदबिन्दवः तानि माल्यानि जातानि मुनीनाम् तपसा तदा स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघवा तेषाम् गतानामद्यापि दृश्यते परिचारिणी श्रमणी शबरी नाम काकुत्स्थचिरजीविनी त्वाम् तु धर्मे स्थितानित्यम् सर्वभूत नमस्कृतम् दृष्ट्वा देवोपमम् राम स्वर्गलोकम् गमिष्यति ततस्तद्राम पम्पाया स्थिरमाश्रित्य पश्चिमम् आश्रमस्थानमतुलम् गुह्यम् काकुत्स्थ पश्यसि न शक्नुवन्ति तदाश्रमे ऋषेस्तस्य मतङ्गस्य विधानात्तच्चकानम् मतङ्गमनमित्येव विश्रुतम् रघुनन्दन तस्मिन्नन्दन सङ्काशे देवारण्योपमे वने नानाविहगसङ्कीर्णे रंस्य से रामनिर्वृतः ऋष्यमोकस्तु पम्पायाः पुरस्तात् पुष्पितद्रुमः सुदुःखारोहणश्चैव शिशुनागाभिरक्षितः उदारो ब्रह्मणा चैव पूर्वकालेऽभिनिर्मितः शयानः पुरुषो राम तस्य शैलस्य मूर्धनी यत्स्वप्नम् लभते वित्तम् तत्प्रवृद्धोऽधिगच्छति यस्त्वेन विषमाचारः पापकर्माधिरोहति तत्रैव प्रहरन्त्येनम् स्वप्तमादाय राक्षसाः तत्रापि शिशुनागानामाक्रन्दः श्रूयते क्रीडताम् रामपम्पायाम् मतङ्गाश्रमवासिना सक्ता रुधिरधाराभिः सम्हत्य परमद्विपाः प्रचरन्ति पृथक् कीर्णा मेघवर्णास्तरस्विनः ते तत्र पीत्वा पानीयम् विमलम् चारुशोभनम् अत्यन्तसुखसंस्पर्शम् सर्वगन्धसमन्वितम् निर्वृत्ताः संविगाहन्ते वनानि वनगोचराः वृक्षाम् षद्वीपिनश्चैव नीलकोमलकप्रभान् रुरूनपेतानजयान् दृष्ट्वा शोकम् प्रहास्यसि राम तु शैलस्य महती गुहा शिलापिधाना काकुत्स्थदुःखम् चास्याः प्रवेशनम् तस्या गुहायाः प्राग्द्वारे महाञ्चीतोदतो ह्रदः नानानगसमाकुलः ना तस्याम् वसति धर्मात्मा सुग्रीवः सह वानरैः कदाचिच्छिखरे तस्य पर्वतस्यापि तिष्ठति कबन्धस्त्वनुशास्यैवम् रामलक्ष्मणौ स्रग्वीभास्करवर्णाभः खेव्यरोचर वीर्यवान् तम् तु खस्थम् महाभागम् रामलक्ष्मणौ प्रस्थितौ त्वम् व्रजस्वेति वाक्यमूचतुरन्तिके गम्यताम् कार्यसिद्ध्यर्थमिति तावब्रवीत् स च सुप्रीतौ प्रस्थितस्तदा सतत् कबन्धः प्रतिपद्य रूपम् मृतः श्रिया निदर्शयन् राममवेक्ष्य खस्थः तदाभ्युवाच इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे त्रिसप्ततितमः सर्गः